श्रीमद्भागवत् महापुराणम् एकादशस्कन्ध अस सप्तदशोऽध्यायः वर्णाश्रमं धर्मनिरूपन् उद्धौ उवाच यस्त्वयाभिहितपूर्वं धर्मत्वद्भक्तिलक्षणः वर्णाश्रमाचारबतां सर्वेषां द्विपदामपि यथानुष्ठीयमालेन त्वयि भक्तिर्नाम् भवेत् स धर्मेणारविन्दाक्ष तत्समाख्यातुमर्हसि पुरा किल् महाबाहो धर्मम् परमकं प्रभो यत्तेन हंसरूपेण ब्रह्मणोऽभ्याथ माधव स इदानीं सुमहता कालेनामित्रकर्षण न प्रायो भविता मर्त्यलोके प्रागनुशासितः वक्ता कर्त वितानान्यो कर्ता विता नान्यो धर्मस्याच्युतते भुवि सभायामपि वैरिञ्च्यां यत्र मूर्तिधरा कर्त्रा वित्रा प्रवक्त्रा च भवता मधुसूदन महीतले देव विनष्टं क प्रवक्ष्यति तत्त्वं न सर्वधर्मज्ञधर्मस्त्वद्भक्तिलक्षणः यथा यस्य विधीयेत तथा वर्णय मे प्रभो श्रीशुकुवाच निध्वं स भृत्यमुख्येन पृष्ट स भगवान् हरिः दीतक्षेमायमर्त्यानां धर्माणाः सनातनान् श्रीभगवानुवाच धर्मये स तव प्रश्नो नै श्रेयसकरोणां वर्णाश्रमाचारवतां तमुद्धवो निबोधमे आदौ कृतियुगे वर्णो नृणां हंस इति स्मृतः कृद्यकृत्या प्रजात्या तस्मात्कृतियुगं विदुः वेद प्रणव एवाग्रे धर्मोऽहं वृषरूपधे उपासते तपोधिष्ठाहंसम् मां मुक्तकिल्विषाः तेतामुखे महाभाग प्राणान्मे हृदियात्रये विद्याप्रादूरभुक्तस्याहमासं त्रिविण्मुखः विप्रच्छत्रे यद्विशुद्राम् मुखबाहुरुदापदाजम् पादजाः वैराजात् पुरसाज्जाता ज गृहाश्रमो जघ्नतो ब्रह्मचर्यं हृतो मम वक्ष्यस्थानाद्वने वासोन्यासशीर्षनि संस्थितः वर्णानामाश्रमाणां च जन्मभूम्यनुसारिणी आसन् प्रकृतयोर्निणां नीचैर्णीचोत्तमोत्तमाः शमोदमस्तप शोचं सन्तोषशान्तिरार्जवम् मद्भक्तिश्च दया सत्यं ब्रह्म प्रकृतयस्मि मा तेजो बलम् धृतिशौर्यम् तिक्षौदार्यमुद्गवम् उद्यमः स्थैरं ब्रह्मण्य तैश्वर्यं क्षत्र प्रकृतियस्मि माह आस्तिक्यं दाननिष्ठा च अदम्भो ब्रह्मसेवनम् अतुष्टिरर्थोपचर्यै वैश्यप्रकृतिरस्ति माह शुश्रोषणं द्विजराम् शुश्रोषणं द्विजुगवां देवानां चाप्य माययां तत्र लब्धे सन्तोषशुद्ध प्रकृति अस्ति माह असौ च मनृतं सेयं नास्तिक्यं शुष्कविग्रह कामक्रोधश्च तर्सश्च स्वभावोऽन्ते वचायिनाम् अहिंसा सत्यमस्तेयम् अकामक्रोधलोभता भूतप्रियं स्थितेहा च धर्मोऽयं सार्ववर्णिकः द्वितीयं प्राप्यान्पुर्व्यां जन्मोपनयनं द्विजः वसन् गुरुकुले दान्तो ब्रह्माधीतचाहुतः मेखलाजिनदण्डाक्ष ब्रह्मसूत्रकमण्डलून् जटिलोऽधौ तद्वासौ रक्तपीठ कुशान् दधत् स्नानभोजनं होमेषु जपोच्चारे च वागतः न छन्द्यान्नखोन्द्रोमाली कथोपस्थ गतान्नपि रेतो नावकिरे जातु ब्रह्मव्रतधर स्वयम् अवकीर्णोऽवगाश्याप्सूयताश्रोश्रीपदीं जपेन् अग्न्यर्कार्चार्य गोविप्रगुरुवृद्धसुराचुचिः समाहित उपासीतसन्धे च यत वाग्जपन् आचार्य मां विदालीयान्नावं मन्येत कर्हिते न मरुतबुद्ध्याशूयेत सर्वदेवमयो गुरुः सायं प्रातरुपानीय भैक्ष्यं तस्मै निवेदये यच्चान्यदव्यनुज्ञातम् उपयुञ्जीतसंयतः